अथ पञ्चमोऽध्यायः वैशम्पायन उवाच पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः प्रययोर्जाह्नवीकुलात् कुरुक्षेत्रं सहानुगाः सरस्वतीदृशद्वत्यौ यमुनां च निषेव्यते ययुर्वनेनैव वनं सततं पश्चिमां दिशम् तत सरस्वती कूलेश मधनु काम्यक नाम मदृशुर्नम मुनिजन प्रिय न्यवसन वीरावने बहुमृग्जे अन्वास्यम मुनि सान्व्यम्चार विदुरस्वथ पांडूना सदा दर्शन ला जगामयिकरथेनैव काम्यकं वनमृद्धिम ततो गत्वा विदुरः काम्यकं तच्छीग्रैरश्वैर्वाहिना स्यन्दनेन ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ततोपश्यद्विदुरं तुर्णमारादभ्यायान्तं सत्यसन्धः स राजा अथा भीमसेनं किं नु क्षप्ता वक्ष्यति नः समेत्या वचनात् सौ बलस्य समाह्वाता कच्चित् क्षुद्र शकुनिर्नायुधानि जेष्यत्यस्मान् पुनरेवाक्षवत्याम् समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुं गाण्डीवे संशयिते कथं नु संशयिता भवेन्नः पैशं वाचा, तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णं नृपते सर्व एव तैः सकृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान् समेयात् समाश्वस्तं विदुरं ते न रर्षभास्ततो प्रच्छन्नागमनाय हेतुम् स चापि तेभ्यो विस्तरतः शशंसा यथा वृत्तो धृतराष्ट्रोऽकेयः विदुर उवाच अजातशत्रो परिगृह्याभिपूज्य एवं गते समतामभ्युपेत्या पथ्यं तेषां मम चैव ब्रवीः मयाप्युक्तं यत्क्षेमं क्षेमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव तद्वै तस्मै न रुचामभ्युपैति